अथर्ग्वेदे पञ्चमाष्टके षष्ठोऽध्यायः ओत्यु अदर्श्यायत्योहितादिवः अपोमहिम् यति चक्षसे तभोज्योतिशृणोति सूदरी मुदुश्रिया सृजते सूर्यस्य चाङ्गुद्यन्नक्षत्रमर्चिवत् तवेदुषोऽव्युषि सूर्यस्य च सम्भक्तेन गमे महि प्रतित्वादुहितर्दिवृषो जीरा अभुत्स्महि या वहसि पुरस्पारम्भन्वतिरत्नन्न दाशुषेमजाः उच्छन्ति या कृडोषि मह्मनामहि प्रक्षैदे विश्वदृशे तस्यास्ते रत्नभाज ईमहे भयम् श्याम मातुर्नसूनमाः तच्चित्रम् राधा भरोषो यदि ये दिवो दुहितर्मर्तभोजनम् दद्रास्व भुनजामहैः श्रवः सूरिभ्यो ओ अमृतम् वसुत्वरम् गोमतः सोदयित्री मघो आवत्युषा उच्छदपस्रिधाः इन्द्रा आवरुणा युवमध्वराय नो विषे जना आयमहि शर्म यच्छतम् सम्राळन्यस्वराळन्य उच्यते वाम् महान्तामिन्द्रावरुणा महावसु विश्वे ए देवासः परमे व्योऽमनिशम्भामोजो वृषणासम्बलम् वधुः अन्वपाखान्यत्रन्तमोजसा सूर्यमैरयतम् दिविप्रभुम् इन्द्रा वरुणामदे अस्य मालिनो पिन्वतमपितः पिन्वतन्धिराः युवामिद्युत्सुभृतना सुबन्हयो युवाङ् क्षेमस्य प्रसवेमितज्ञवः ईशानामस्व उभयस्य कारव इन्द्रा आवरुणा सुहवा आहवामहे इन्द्रा आवरुणा यदिमानि चक्रतुर्विश्वा आजाता निभुवनस्य मज्मनाः क्षेमेण मित्रो वरुणम् दुभस्यति मरुद्धिरुग्रः महे शुल्कायवरुणस्यनुत्विष ओजोऽ मि माते ध्रुवमस्य यत्स्वम् अजामिमन्यश्नयन्तमातिरद्दभ्रेऽभिरन्यः प्रवृणोति भूयसः न तमम् हो न तु वितानिमर्त्यमिन्द्रावरुणानतपः कुतश्च नस्य देवागच्छथो वीथो अद्धरन्नतम् मर्तस्य नशते परिहृतिः अर्वाङ्रादैव्येनावसागतम् शृणुतम् युगोर्हि सख्यमुत वा भरे भरे पुरो योधा भवतम् कृष्ट्योजसा यद्बाह्मवन्त उभये अधस्पृथिनरस्तोकस्य तन यस्य सातिषु अस्मे इन्द्रो वरुणो मित्रो अर्यवाद्युम् नै यच्छन्तु बहिशर्मसप्रथाः अवध्रञ्ज्योतिरदितेरलतावृधोः देवस्य श्लोकम् सवितुर्मनामहे युवान्नरापश्यमानासहाप्यम् प्राचागव्यन्तः पृथुपर्षवो ययुः दासाः च वृत्राहतमार्याः च सुदासमिन्द्रावरुणावसावतम् यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किञ्चन यत्राभयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधिवोचतम् सम्भूम्यान्ताध्वसिराजक्षतेन्द्राः वरुणाधिविघोष आरुहत् अष्ठुर्जनाः नामुपमामराः तयोर्वागवसाहवनः श्रुतागतम् इन्द्राः वरुणा वसनाभिरप्रतिभेदम् बन्वन्ताप्रसुदासमागतम् ब्रह्मा अन्येषाम् शृणुतम् हवे मनिषत्यादृत्सो नाम भवत्पुरोहितिः इन्द्रावरुणावभ्यातपन्ति माघान्यर्यो वनुषामरातयः युवम् यवस्व उभयस्य राजथोऽधस्मानोपतम् पार्येः दिवि युवाम् हवन्त उभयाः स आदिष्मिन्द्रम् च वस्वो वरुणम् यत्र राजभिर्दशभिर्निवाधितम् प्रसुता समापतम् दश राजा नः समिता अयज्यवः सुदासमिन्द्रावरुणालयुधुः सत्यानृणामद्मसदामुपस्तुतिर्देवा एषामभवन् देवहूदिषु ृत्राण्यन्यः समिथेषु जिघतेर्ण्यन्यो अभिरक्षते सदा हवामहे वामृषणा सुभृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् अस्मे इन्द्रो वरुणो मित्रो अर्यवाद्युम् न यच्छन्तु महि शर्म सप्रथाः अपध्रन् योतिरलितेरुतावृतो देवस्य श्लोकम् स वितर्म नामहे आवाहम् राजानावध्वरे वृत्याम् हव्येऽभिरिन्द्रावरुणा नमोभिः प्रभाम् घृता चे बाह्वोर्ददानापरिद्मनाविशुरूपा जिगाति युवो राष्ट्रम् रहदिन्वदिद्यौ यौ सेतृभिरज्जुभिः सिनीथः परिणो हेणो वरुणस्य विद्या उरुन्न इन्द्रः कृणवतु लोकम् कृतम् नो यज्ञम् विदधे शुचारुम् कृतम् ब्रह्माणि सूरिषु प्रशस्ता उपो रयिर्देवजूतो न एतु प्रणः पारहाभिरूतिभिः स्थिरेतम् अस्मे इन्द्रावरुणा विश्ववारम् रयिन्धत्तम् वसुमन्तम् पुरुक्षम् प्रय आ आदित्यो अनृताभिनात्यमिता इयमिन्द्रम् वरुणमष्टमेगीः प्रावत्तो केतनयेतु जाना सुरत्नाः सो देववीहेतिङ्गमे मयूयम् पात स्वस्ति हिसदानः पुनीषे वाम रक्षसम् मनीशा सोममिन्द्राय वरुणाय जुह्वे घृतप्रतीका स्पर्धन्ते बाहु ते बहूय अत्र येषु ध्वजेषु दिद्यवः पतन्ते वरुणा इन्द्रावरुणा पवित्रा न हतम् परा चर्वा विशोचः आपश्चिद्यस्वयशसः सदस्सु देवेरिन्द्रम् वरुणम् देवताधुः पृष्टेरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतिरिदिहन्ति स सुक्रतुरुरुतचितस्तु होताय आहादित्यशपसा भाम् नवस्वान् आपवर्त तप सेवाम् हविष्मानसदित्स सुविताय प्रयस्वान् यमिन्द्रम् वरुणमष्टमेघे प्रावत्तो केतनयेतुजाना सुरत्नासो देववीतिङमेम यूयम् वाहत स्वस्तिभिः सदा धीरार्पस्य महिना जनूम् शिवियस्तम् भरोदसीति दुर्भि प्रणाकमृष्मन्नुदे बृहन्तम् विदा नक्षत्रम् पप्रथच्च भूम उत स्वयाः तन्वा आसम्वदेतत्कदान्वा अन्तर्वरुणे भुवानि किम्मे हव्यमहृणानो जुषेत कदामृलेकम् सुमनाः अभिख्यम् पृच्छेत तेनो वरुणदिदृक्षोपोगितुषो विभृच्छम् समानमिन्मेः कवयश्चिदाहुरयम् हतुभ्यम् वरुणोऽघृणीते किमाग आसवरुणज्येष्ठञ्यत्स्तोता रञ्जिखा हंससि सखा आयम् प्रतन्मे एवोचो दूलभस्वधापो वत्तानेना नमसा तुल इया अलद्रुग्धा नित्याः सुनो वयावयम् च कृमातनोभिः अपराजन्वशुतृपन्नताजुम् सृजावत्सन्नदाम् नोऽपसिष्ठम् अस स्वो दक्षो ओवरुढदृशृदितासुरा आमञ्जुर्विभेदको अचित्तिः अस्थिज्यायान्कनीः उभारे स्वप्नस्तने तनृतस्य अचे एतय देवो अर्यो वृत्सं राजे कवितरोजुनाति अयम् श्रुतुभ्यम् वरुणस्वधावो हृदि स्तोम उपश्रितश्चिदस्तु शन्नः क्षेमेषमुयोगेनो अस्तु यूयम् वातस्वस्तिभिः सदा नः न तत्पथो आत्मा ते वातो न जानवीनोत्पशुर्नपोर्निर्यवशेषसवान अन्तर्महे बृहति रोदसी मे विश्वा आ ते धामवरुणप्रियाणि परिस्पशो वरुडस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेघे लतावा आनः कवयो यद्यदेपदे एतसोय इषयन्तमन्मा उवाच मे वरुडो विद्वान्पदस्य गुह्या नवोचद्युगाजविप्र उपराजशिक्षन् तिस्रोऽद्यापोरीता अन्तरस्मिन् तिस्रो भूमिरुपराश्चिधानाः कृत्सो राजा वरुणश्चक्र एतन् दिविप्रेङ्खम् हिरण्ड्यजम् शुभेकम् अवसिन्धुम् वरुणोद्यौरिवस्थाद्रप्सो न श्वेतो मृगस्तु विष्मान् गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजाः यो चक्रुषे चिदागो ओभयम् स्याहमवरुणे अनागाः अनूरतान्यतेर्रुधन्तो ओयम् पातस्वस्तिभिः सदा नः प्रशंसुवम् वरुणाय प्रेष्ठा अम्बतिम् परस्व य ए भर्वान् चङ्करतेजत्रम् सहस्रा आबम् वृषणम् बृहन्तम् अथान्वस्य सन्दृशम् जघन्वानग्नेरणे कम् वरुणस्य मंसे स्वार्यदश्वन्नधिपावु अन्धोऽभिमा वपुर्दृशये निनीयात् आयद्रुहा बवरुणश्चलाभम्प्रयत्समुद्रवीरया आबमध्यम् अधियसपांस्तुभिश्च वसिष्ठम् वरुणो नाव्याधादृशिम् चकारस्व पामहोऽभिः स्तोतारम् विप्रः सुतिलत्वे अन्धायान्नद्यावस्ततन्या दुशासाः क्वात्यानिनौ सख्या बभोगः सुचापहेयरवृगम् पुराचित् गृहन्तम् मानम् वरुणस्वधावः मात एनः स्वन्तो यक्षिन्भुजे मयन्धिस्मा विप्रस्तुपते वरूधम् ध्रुवासुत्वा सु क्षितिसुक्षियन्तोऽस्मत्पाशम् वरुणो मुमोचत् अभो वन्वाना अदितेरुपस्थाद्यूयम् पातस्वस्तिभिः सदा नः मोषु वर्णमृण्मयम् ग्रहम् राजन्नहङ्गमम् मृणासुक्षत्रमृळया यदेमिप्रस्फुलन्निभदृतिर्नध्वातो अद्रिवः मृडासुक्षत्रमृळया त्वत्तः समहदीनता प्रदीपम् जगमासु चे मृडासुक्षत्रमृणया अपाम् मध्ये तस्थिलाम् सन्तृष्णाभिदज्यदितारम् मृणासुक्षत्रमृळया यत्किञ्चेदम् वरुणदैभ्ये जनेऽभिद्रोहम् मनुष्यास्तरामसि अचित्येयत्तवधर्मा युजोऽपि देवरीषः प्रवेरजा शुचयो दधरे वा मध्वर्यभिर्मधुमन्तः सुतासाः महावायो नियुतो याह्यच्छापि वा सुतस्यान्धसोमदाय ईशानाय प्रहृति यस्ता न शुचिम् सोमम् शुचिभास्तुभ्यम् वायो प्रणोषितम् जायते भाज्यस्य राजेऽनुयञ्जज्ञपोरोरसीमे राजे देवे धिषणा धाति देवम् अध वायुन्नियुतः सश्च तस्वा उत श्वेतम् वसुधितिन्निरेखे गृच्छन्नुषसः सुदिनाः अरिप्रा उरुज्योतिर्विदुर्दीध्यानाः गव्यम् जिदूर्वमुषिजोविवृस्तेषामनुप्रतिपः सश्रुरापाः ते सत्ये न मनसादीध्या आना स्वेन युक्ता सहक्रतुना वहन्ति इन्द्रवायो वीरवाहं रथाम् वामीशानयो ओरभिवृक्षः सजन्ते ईशानासो ये ददते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः इन्द्रवायोसूरयो विश्ववायुरर्वद्भिर्वीरैः पृतनासुसह्युः अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायोजो सुष्ठुतिभिर्वसिष्ठाः वाजयन्तस्वपसे हुवे तस्वस्तिभिः सदा नः कुविदङ्गनवसाये वृथा सः पुरा देवानवद्या सहासन् ते वायपे मलपे बाधिराया वा आसयन् नुषसंसूर्ये एण उषन्तादूतानदभाहाय गोपामासश्च पाथः शरदश्च पूर्वीः इन्द्रवायो सुतिर्वामि यानामाद्यकमेटेषु वितञ्चलव्यम् यो अन्नाङ्ग्रयिभृतस्वधाश्वेतस्य शक्तिनियुतामभिश्रेः ते वायवेदमनसोऽपितस्थुरुश्वेन्नरस्वपत्यादिचक्रुः यावत्तरस्तन्वो यावो जो यावन्नरश्चक्षसादी ध्यानाः शुचिम् सोमम् शुचिपापातमस्मे इन्द्रवायो सततम् बर्हिरेलम् नियुबाना नियुतः स्पार्हवे एला इन्द्रवायो सरसंयातमर्वाक् इदम्भि वाम् प्रभृतम् मध्वो अग्रमधप्रेणादाविमुक्तमस्मे या वा अंशतम् नियुतो याः सहस्रमिन्द्रवायो विश्ववा आरासम् ते आभिर्यातम् सुविदत्रा आभिरर्वाक्पातन्नरा प्रहृतस्य मध्वाः अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवाजो सुष्टुतिभिर्वसिष्ठाः वाजयन्तः स्ववसे हुवेम यूयम् पा आतस्वस्तिभिः सदा नः विश्ववारा उपो ओते अन्धो मध्यमयामि यस्य देवदधिपेयम् प्ररोता आजीरो अध्वरेष्वस्थात्सोममिन्द्रा आजवाजवेऽपि बध्यै प्रयद्वाम् मध्वोः अग्र्यम्भरम् यद्भर्यवोः देभयम् तस्य चेभिः प्रयाभिर्यासि धाश्वाम् समच्छा निनो रलिम् सुबोजसंयुगस्वनि वीरङ्गव्यवश्यञ्च राधाः ये वायव इन्द्रमातनास आदे वासो नितोषनासो हर्यः घन्तो अवृत्राणि सूरिभिः श्यामसा सह्वांसो अ युधानृभिरमित्रान् आनो अनियुद्भिष्यतिनेभिरद्धरम् सहस्रिणेभिरुपयाहि यज्ञम् वायोः अस्मिन् सवनेमादयस्व यूयम् पात स्वस्तिभिः सदा नः शुचिन्दुस्तो मन्नवजातमद्येन्द्राग्ने वृद्रहणाजुषेता उभाहि वाम् सुहवाजो हे पितावाजम् सद्य उशते ज्येष्ठाः तासा न शीषवसा नाहि भूतम् साकम्बतांसा क्षयन्तौ राजोयवशस्य भूरेः पुम् वाजस्य स्थविरस्य घृष्वेः उपोहयद्विदथम् वाजिनो गुर्ध्येभिर्विप्राः प्रमतिमिच्छमानाः अर्वन्तो न काष्ठान्नक्षमाणा इन्द्राग्निजो हुवतो नरस्ते येर्भिर्विप्रः प्रमतिमिच्छमान ईटे राञ्जशसम् पूर्वभाजम् इन्द्राग्ने वृत्रहणा सुभज्रा प्र नोरम् येभिस्तिरतम् तेष्णैः स्पर्धमाने तनोरुचाशूरसा तायतैरे अदे भजुम् विदथे वजुभिः सत्राहतम् सोमसुताजनेन इमांशु सोमसुतिमुपन एन्द्राग्नेसौ नो चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्वभृते यमाजैः सो अग्न एनानमसा समिद्धोच्छा आमित्रम् वरुणमिन्द्रम् वोचेः यत्सेमागश्च क्रमा तत्सुमृणतदर्यमादिति शिश्रथन्तु एता अग्न आशुषाणास इष्टेर्युवोः स चाभ्यश्यामवाजान् ेन्द्रो न विष्णुर्मरुतः परिक्षन्ोऽयम् वा आतस्वस्तिभिः सदा नः इयम् वा आपस्य मन्मन इन्द्रा आग्ने पूर्व्यस्तुतिः अभ्रादृष्टिरिवाजनि श्रुणुसञ्जरितुरहवमिन्द्रा आग्ने वनतङ्गिराः ईशानाप्यप्यतन्धिजाः मापा इन्द्रे अग्नमो बृहत्सु वृत्तिमेलयामहे धिया तेना अवश्यवाः ता हि सुवन्त ईडत इत्थाभिप्राः स ऊतये स हवामहे मेधसा आता सनिश्यवाः इन्द्राग्ने अवसागतमस्मभ्यम् चर्षणीसः मानो दुःशंस ईशद माकस्यनो नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य इन्द्राग्नेशमयच्छतम् गोमद्धिरण्यवद्वसु यद्वामश्वा आ वदेमहे इन्द्राग्ने तद्वलेमहि यत्सो महासुते नर इन्द्राग्ने अजो हवोः सत्ये एवन्तासपर्यवाः उक्थे दुःश्रम् संवर्त्यम् दुर्विद्वाम् संरक्षस्विनम् आभोगं हन्मनाहतमुदधिम् हन्मनाहतम् प्रक्षोदसाथाय सा सस्र एषा सरस्वती वयाति विश्वाः अपोमहिना सिन्धुरन्याः एकाः चेतत्सरस्वती लतीनाम्शुचर्यते यिलिभ्यः समुद्रात् यश्चेतन्ति भुवनस्य भूरेर्घृतम् पयो रुदुहेनाहुषाय स बा वृथे नर्यो जोषणासुरुषाशिशुर्वृषभो यज्ञियासु सपादिनम् अघवद्भ्यो दधातिभि सातये तन्वम् मामृजीत उतस्या नः सरस्वतीजुषाणोपश्रवत्सुभगा यज्ञे अस्मिन् इमा जुह्वा आनायुष्मदा नमोभिः प्रति स्तोमम् सरस्वतिजुषस्व तव शर्मन् प्रियतमे दधा आना उपस्थेयामशरणन्न वृक्षम् अयमुते सरस्वति वसिष्ठो द्वारावृतस्य सुभगेव्या वह वर्धशुभ्रेस्तु मतेराः शिवाजान्योऽयम् पातस्वस्तिभिः सदा नः रहदु गायिषेवचो सूर्याः नदीनाम् रस्वती मिन्महयासु भक्तिभिस्तो मयीर्वसिष्ठरोदसी महिना शुभ्रे अह्नसि अधिक्षियन्ति गौरवाः सानो बोध्यभित्री भरुत्सखाचोदराजो मघो नाम् भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती दृढाना च मदग्निवत्स्तुमाना च जनीयन्तोऽन्वग्रवः पुत्रीयन्तः सुदानवः सरस्वन्तम् हवामहे ये ते सरस्व ऊर्मजो मधुमन्तो घृतश्च्युताः तेभिर्नो विता भवसरस्वतस्तनयो विश्वदर्शतः भक्षीमहि प्रजामिषम् यज्ञे दिवो नृषदने पृथिव्यानरो यत्र ते भजवो मदन्ति इन्द्राय यत्र सपनानि सुन्दवेगमन्मदाय प्रथमम् वयश्च आदैव्याः वृणीमहेवाहंसि बृहस्पतिर्नो महासखायः यथा भवेमीढुषे अनाः गायो नो दातापरावतः पितेव तमुज्येष्ठन्नमसा हविर्भिः सुषेवम् ब्रह्मणस्पतिम् गृणीषे इन्द्रम् श्लोको महिदैव्यस्य शक्तुयो ब्रह्मणो देवकृतस्य राजा स आ नो योनिं सदरुप्रेष्ठो बृहस्पतिर्विश्वारो यो सदरु अस्ति कामो राजः तमानो रन्दात्पर्षन्नो अतिषष्ठतो अरिष्टानमानोऽर्कमृता जुष्टमिमेधासुरमृता सः पुरादाः सुचिक्रन्दय जलम् अस्यानाम् बृहस्पतिमधर्वाणम् भुवेम ग्मासो अरुषासो अश्वा बृहस्पतिम् स हवाहो वहन्ते सहश्चिद्यस्य नीरवत्सरस्थन्नभोनरूपमरुषं वसानाः स हि श्रीशतपत्रस्य शुन्धिरहिरण्यवाशीर्षिरः स्वरुषाः बृहस्पतिस्स करिष्ठः देवी देवस्य रोदसे जनित्रे बृहस्पतिम् वा वृधतुर्महित्वा दक्षाय्याय रक्षता सखा जः करद्ब्रह्मणे सुतरासु गाधा इयम् अविष्टन्धियोजिकृतम् पुरन्देर्जदस्तमर्यो वनुषामरादेः बृहस्पते युवमिन्द्रश्चपस्वो दिव्यस्येशाथे उत पार्थिवस्य भर्तम् व्रजिंस्तुपते कीरजे चिद्यूयम् पात स्वस्तिभिः सदा नः अद्भर्यवो ऋणम् दुग्धमं शुञ्जोतनवृषभायक्षितीनाम् गौराद्वेदे येयाम् अवपानमिन्द्रो ओ विश्वाहेद्या आतिसुतसो ओममिच्छन् यद्दधिषे प्रतिविचारन् निवेदिवे प्रीतिमितस्य पक्षे कुत हृतो तमनसादुषाण प्रस्थितान् वाहि सोमान् तद्दानः सोमं सहसे माता महिमानमुवाच न्द्रमप्राथोर्वा अन्तरिक्षम् युधा देवेभ्योपरि वश्चकर्थ यद्योधया महतो मन्यमानान् साक्षा आमतान् बाहुभिः शासदानान् यद्वादृभिर्वृत इन्द्राभियुध्यास्तन्त्रजािम् सौ उर्षवसञ्जयेम प्रेन्द्रस्य वोचम् प्रथमा कृतानि यदेतदे एवीरसहिष्टमाया अथाभवत्केवलः सोमो अस्य तवेदम् विश्वमभितः पशव्याञयत्पश्यसि चक्षसा सूर्यस्य गवामसि गोपतिरेक इन्द्रभक्षे महिते प्रयतस्य वस्वाः बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येषाथे उत धत्तम् रयिं स्तुवते गीरये चिद्यूयम् पात स्वस्तिभिः सदा नः परो मात्रया तन्वा विद्मरजसे पृथिव्या विष्णो देवत्तम् परमस्य वित्से नते, ते विष्णो जायमानो न उदस्तभ्या नामपृष्पम् रहन्तम् दाथर्थ प्राचेङ्गकुभम् पृथिव्याः इरावते धे नुमतेः भूतम् सोऽयवसि ने मनुषेदशस्या व्यस्तभ्यारोदशे विष्णपेते दाधर्थ पृथिवीमभितो मयूखैः पुरुञ्जज्ञाय चक्रसुरुलोकम् जनयन् तासूर्यमुषासमग्निम् दासस्य जिदृष शिप्रस्य माया जघ्नसुर्नरावृतनाद्येषु इन्द्राः विष्णो दृम्हिताः शम्बरस्य नवपुरो नवतिम् जष्णिष्टम् शतम् वर्चिनः सहस्रम् च साकम् हथो अप्रत्यसुरस्य वीरान् इयम् मनीषा बृहन्तो रुक्रमा तपसाः वर्धयन्ति रेवाम् सोमम् विदथेषु विष्णो वषर्ते विष्णवास आकृणो मि तन्मे दुषस्वशिपि विष्टहव्यम् वर्धम् कृत्वा सुष्ठ्युतयोगिरो मे योजम् वा आत स्वस्तिभिः सदा नः नो मर्तोदयते स निश्यन्यो विष्णव उरुगाया यदाशत् प्रयः सत्रा चामनसादिदात एतावन्तर्यमाभिवासात् त्वम् विष्णोऽसुमतिम् विश्वलन्यामप्रयुता पर्चो यथा नः सुमितस्य भूरेरश्वावतः पुरश्चन्द्रस्य राजः त्रिर्देवः पृथिवीमेष एताम् विचक्रमे शतच्च संमहित्वा प्रविष्णुरस्तु तव सस्तवीयाम् तेषम् हिरस्य स्थविरस्य नाम विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषेदशस्यन्ध्रुवासो अस्य कीरयोजनास उरुक्षितिम् सुजनिमाचकार प्रदत्ते अद्य शिपि विष्टनामार्यश्यम् सामि वयुनानि विद्वान् तन्ता आगृणामि तप समतम् यान् क्षयम् तमस्य रजसः पराके किमित्ते विष्णो परितक्षम् भूत्प्रयद्वभक्षे अस्मि मा वर्पो अस्मदपगोह एतद्यतन्यरूपः वर्धम् तुत्वा सुष्टुतयोगिरो मे यूयम् इति पञ्चमाष्टके